ब्रह्माण्डपुराणं पूर्वभागम् अध्यायं फिफ्टीन् पृथिव्यायाम वर्णनम् सूत उवाच एवं प्रजासन्निवेशं श्रुत्वा वै शांशपायनिः पप्रच्छनियदं सूतं पृथिव्युदधिविस्तरम् कति द्वीपासमुद्रा वा पवदा वा स्मृताः कियन्ति चैव वर्षाणि तेषु नद्यश्च का स्मृताः महाभूतप्रमाणं च लोकालोकं तथैव च पर्यायं परिमाणं च गतिं चन्द्रार्कयोस्तथा ये तत्प्रब्रूहिणः विस्तरेण यथार्थतः सूत उवाच हन्तवोहं प्रवक्ष्यामि पृथिव्यायामविस्तरं सङ्ख्यां चैव समुद्राणां द्वीपानां चैव विस्तरं द्वीपभेदसहस्राणि सप्तस्वन्तर्गतानि च न शक्यन्ते क्रमेणेह वक्तुं यैः सततं जगद सप्तद्वीपान् प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते अचिन्ध्या खलु ये भावा न तां तर्केण साधयेत् प्रकृतिभ्यः परं यच्च तदचिन्त्यं प्रचक्षते नववर्षं प्रवक्ष्यामि जम्बूद्वीपं यथा तथं विस्तरान्मण्डलाच्चैव योजनैस्तन्निबोधत शतमेकं सहस्राणां योजनाग्रात् समन्ततः नानाजनपदाकीर्णपुरैश्च विविधैः शुभैः सिद्धचारणसङ्कीर्णपर्वतैरुपशोभितः निबद्धैश्च शिलाजालसमुद्भवैः पर्वतप्रभवाभिश्च नदीभिः सर्वतस्ततः जंबूद्वीप्रृधुश्रीमा प्रधु, प्रधु मंडल नवभिस्वृद्व भुवन बोध भाव लवणेन समुद्रेण सर्व परिवारि जबूदवीपरा सम समेनदु दु सम प्रागायता यदा षडिमे वर्षपर्वताः अवगाढा ह्युभयदो मसुद्रौ पूर्वपश्चिमौ हिमप्रायश्च हिमवान् हेमकूढश्च हेमवान् सर्वर्तुषु सुखश्चापि निषद्धः महान् चतुर्वर्णश्च सौवर्णो मेरुश्चारुतमस्मृतः द्वात्रिंशच्चसहस्राणि विस्तीर्णः स च मूर्धनि वृत्ताकृतिप्रमाणश्च नानावर्णास्तु पार्श्वेषु प्रजापदि गुणान्वितः नाभिबन्धनसम्भूदो ब्रह्मणो व्यक्तजन्मनः पूर्वतश्वेदवर्णश्च ब्राह्मणस्तस्य तेन तत् पार्श्वमुत्तरतस्तस्य रक्तवर्णस्वभावतः तेनास्य क्षत्रभावस्तु मेरोर्नानार्थकारणाद् पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते भृङ्गपत्रनिभश्चापि पश्चिमेन समाचितः तेनास्य शूद्रभावस्यादितिवर्णाः प्रकीर्तिताः वृत्तस्वभावतः प्रोक्तो वर्णतः परिमाणदः नीलश्च वैदुल्यमयश्वेधक्लुक्लो हिरण्मयः मयूरबर्हवर्णस्तु शादकौम्भश्च शृङ्गवान् ये दे पर्वतराजानसिद्धचारणसेविताः तेषामन्दरविष्कम्भो नवसाहस्र उच्यते मध्येत्विलावृतं नाम महामेरोस्समं तमः न वैवं तु सहस्राणि विस्तीर्णं सर्वतस्तुतद। मध्ये तस्य महामेरोर्विधोम इव पावकः वेद्यार्थं दक्षिणं मेरोरुत्तरार्थम् तथोत्तरम् वर्षाणि यानि षट्चैव तेषां ये वर्षपर्वताः द्वे द्वे सहस्रे विस्तीर्णा योजनानां समुच्छ्रयात् विस्तारा विस्तारात्तेषा मायाम उच्यते योजनानां सहस्राणि शतं द्वायतौ गिरी नीलश्च निषधश्चैव ताभ्यां हीनास्तु ये परे श्वेतश्च हेमकूडश्च हिमवान् शृङ्गवांस्तथा नवति द्वे अशीतिद्वे सहस्राण्यायतास्तु तेः तेषां मध्ये जनपदास्तानि वर्णानि सप्त वै प्रपादविषमैस्तैस्तु पर्वतैरावृतानि तु सन्ततानि नदीभेदैरगम्यानि परस्परम् वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः इदं हैमवदं वर्षं भारतं नाम विश्रुतं हेमकूडं परं ह्यस्मान्नान्ना किं सुरूपं स्मृतं नैषधं हेमकूडात् हरिवर्षं तदुच्यते हरिवर्षात् परं चापि मेरोष्व तदिलावृतं इलावृतात् परं नीलं सम्यकं नाम विश्रुतम् रम्यकात् परतश्वेतं विश्रुतं तद्धिरण्मयं हिरण्मयात् परं चैव शृङ्गवत्तः कुरु स्मृतम् धनुस्संस्थे दुर्विज्ञेये द्वे वर्षे दक्षिणोत्तरे दीर्घाणि तत्र चत्वारि मध्यमं तदिलावृदं। अर्वाक् च निष्रथस्याध वेद्यर्थं दक्षिणं स्मृतं परं नीलवदोयच्च य वेद्यर्थं तु तदुत्तरम् तदु वेद्यार्थे वेदिणेत्री वर्षा चोत्रे तमध्ये दुर्ज्ञे मेरोमृत दक्षिण नुनील से नीलस्य, सेोत्तरे मदु। उदगायेतो महाशैलो मल्यवान्नामनामदः योजनानां सहस्रं तु आनील निषधायतः आयामतश्चतुस्त्रिंशत्सहस्राणि प्रकीर्तितः तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः आयामदोधविस्तारान्माल्यवानिधिविश्रुतः परिमण्डलयोर्मेरुर्मध्ये कनकपर्वतः चतुर्वर्णस्सौवर्णश्चतुरस्रस्समुच्छ्रितः सुमेरुशुशुभे शुभ्रो राजवत् समतिष्ठतः तरुणादित्यवर्णाभो विधूम इव पावकः यो जनानां सहस्राणि चतुरशीतरुच्छ्रितः शरावसंस्थितत्वात्तुवात्रिंशन्मूर्ध्नि विस्तृतः विस्तारात्रिगुणस्तस्य परिणाह समन्ततः मण्डलेन प्रमाणेन त्र्यश्रेमानं तदिश्यते चत्वारिंशत्सहस्राणि योजनानां समन्ततः अष्टाभिरधिकानि स्युस्त्र्यस्रे मानं प्रकीर्तितं चतुरस्रेण मानेन परिणाह समन्ततः चतुष्षष्टिसहस्राणि योजनानां विधीयते सपर्वतो महादिव्यो दिव्यौषधिसमन्वितः भुवनृत जामय शुभ त्रदगणा सर्वे गो रग राक्ष शैलराजे प्रदृश्यं शुभासरसांगणा तु मेरुपरी वृदो भुवन भूत भावन चो य वै चुपेधिष्ठिताद्र्वा भरदेतुमाला पश्चिम उत्तरा कुरवश्चुण्यतिश्रया गन्धमादनपर्श्वेदु परैषा परगण्डिका सर्वर्तुरमणीया च नित्यं प्रमुदिदा शिवा द्वात्रिंशत्तुसहस्राणि यो जनैः पूर्वपश्चिमाद आयामतश्चतुस्त्रिंशत्सहस्राणि प्रमाणतः तत्र ते शुभकर्माणकेतुमालाः प्रतिष्ठिताः तत्र काला नराः सर्वे महासत्वा महाबलाः स्त्रियश्चोत्पलपत्राभास्सर्वास्ताः प्रियदर्शनाः तत्र दिव्यो महावृक्षः पनः सः पड्रसाश्रयः ्रम्णपुत्रमचारी मनोजव ते पीवा फलरस जीवंती चयुत पार्शे माल्यवत पूर्वे पूर्वा तो घंटि आयामथ परगंडिका। भद्राश्वास्तत्र विज्ञेया नित्यं मुदितमानसाः भद्रशालवनं चात्र कालाम्रस्तु महाद्रुमः तत्र ते पुरुषाश्वेता महोत्साह बलान्विताः चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभननाः चन्द्रशीतलगात्र्यस्तास्त्रिय उत्पलगन्धिकाः दशवर्षसहस्राणि तेषा मायुरनामयम् कालाम्रस्य रसं पीत्वा सर्वे च स्थिरयौवनाः दक्षिणेन दुःस्वेदस्य नीलस्यैवोत्तरेण च वर्षं रमणकं नाम जायन्ते तत्र मानवाः रतिप्रधाना विमला जरा दौर्गन्ध्यवर्जिताः शुक्लाभिजनसम्पन्नाः सर्वे च प्रियदर्शनाः तत्रापि सुमहान् वृक्षोन्यक्रोधो रोहितो महान् तस्यापिते फलरसं पिबन्तो वर्तयन्दिवै वै दशवर्षसहस्राणि शतानि दश पञ्च च जीवन्दे महाभागा सदा तृष्ठा नरोत्मा दक्षिणे यत्र शृंगेदशा्युण चर्ष हईरण्वदनाम यहाबलासुतेजस्का जायन्ते तत्र मानवाः यक्षाविरामः सत्वा धनिनः प्रियदर्शनाः एकादशसहस्राणि वर्षाणान्ते महौजसः आयुः प्रमाणं जीवन्ति शतानि दश पञ्च च यस्मिन् वर्षे महावृक्षो लघुचड्रसाश्रयः तस्य पित्वा फलरसं ते जीवन्ति निरामयाः त्रीणि शृङ्गवदशृङ्गाण्युच्छ्रितानि महान्ति एकं मणिमयं तेषामेकं चैव हिरण्मयं सर्वरत्नमयं चैकम् नैरूपशोभित उत्तरे वैशंगात सुद्र से दक्षिणे कुर्ष पुण्यम सिद्धन से त्र वृक्षा मधुफला निपुष्पलोप वस्त्रण च प्रसूय फले सर्वकामप्रदास्तत्र केचिद्वक्षा मनोरमाः गन्धवर्णरसोपेदं प्रक्षरन्ति मधुत्तमम् अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः ये क्षरन्ति सदा क्षीरं सर्वणिमयी भूमि वालुका, सर्वर्तु सूक्ष्म सुखसंपन्नाषंगा नीरजाशुभा दोक्युता जायते मानवाशुभा शुक्लाजनसंपन्ना सर्वे स्थियौवना मिधुनानि प्रसूयन्ते स्त्रियश्चाप्सरसः समाः तेषां ते क्षीरीणां क्षीरं पिबन्ति ह्यमृदोपमं मिथुनं जायते सद्यः समं चैव विवर्धते समं शीलं च रूपं च प्रीयता चैव तत्समा अन्योन्यमनुरक्ताश्च चक्रवाकसधर्मिणः अनात्मयाश्च शोकाश्च नित्यं सुखनिषेविणः त्रयोदशसहस्राणि शतानि दश जीवन्ति दे महावीर्या न इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्खपादे पृथिव्यायाम विस्तरो नाम पञ्चदशोऽध्यायः ओ